ब्रह्माण्डपुराणं मध्यभागम् अध्यायं तर्टिसिक्स् भार्गवचरितं वसिष्ठ उवाच अवगत्य सवै सर्वं कारणं प्रीतमानसः उवाच भार्गवं रामगस्त्यकुम्भसम्भवः अगस्त्य उवाच शृणुराममहाभाग कथयामि हितं तव मन्त्रस्य सिद्धिं येन शीघ्रमेव समाप्नुयाः भक्तेस्तु लक्षणं ज्ञात्वा त्रिविधाया महामते यो यतेत नरस्तस्य सिद्धिर्भवति सत्वरम् एकदाहमनुप्राप्तो नन्ददर्शनकाङ्क्षया पादालं नागरा चैन्द्रैशोभिदं परया मुदा तत्र दृष्टा मया सिद्धा समन्ददः सनकाद्या नारदश्च गौदमो जाजलि क्रदुः ऋभुर्हंसोऽणिश्चैव वाल्मीकिशक्तिरासुरिः यदेन्येजमहासिद्धा वात्स्यायनमुखाद्विज उपासदह्युपासीनाज्ञानार्थं फणिनायकं तं नमस्कृत्य नागन्द्रैः सहसिद्धैर्महात्मभिः उपविष्टकथा तत्र शृणवानो वैष्णवीर्मुदा येयम्भूमिर्महाभागभूदधात्रीस्वरूपिणी निविष्टा पुरतस्तस्य शृण्वन्ती तथा कथाः सदा यद्यत्पृच्छति सा भूमिः शेषं साक्षान्महीधरं शृण्वन्ति सर्वे तत्र स्था तदनुग्रहात् मया तत्र श्रुतं वत्स कृष्णप्रेमामृदं शुभम् स्तोत्रं तत्ते प्रवक्ष्यामि यस्यार्थं त्वमिघागतः वाराहाद्यवताराणां चरितं पापनाशनं सुखदं मोक्षदं चैव ज्ञानविज्ञानकारणं श्रुत्वा सर्वं धरा वत्सप्रदृष्ठात् धराधरम् उवाच प्रणदाभूयो ज्ञातुं कृष्णविचेष्टितं धरण्युवाच अलङ्कृतं जन्म पुंसामपि नन्दव्रजौकसां तस्य देवस्य कृष्णस्य लीलाविग्रहधारिणः जयोपाधिनियुक्तानि सन्ति नामान्यनेकशः तेषु नामानि मुख्यानि श्रोतुकामाचिरादहं तत्तानि ब्रूहि नामानि वासुदेवस्य वासुके नादः परतरं पुण्यं त्रिषु लोकेषु शेष उवाच वसुन्धरेवरारोहे जनानामस्ति मुक्तिदं सर्वमङ्गलमूर्धन्यमणिमाद्यष्टसिद्धिदं महापादककोडिघ्न सर्वतीर्थफलप्रदं समस्तजपयज्ञानां फलदं पापनाशनम् शृणु देवि प्रवक्ष्यामि नाम्नामष्टोत्तरं शतम् सहस्रनाम्नां पुण्यानां त्रिरावृत्या तु यत्फलं एकावृत्या तु कृष्णस्य नामैकं तत्प्रयच्छति तस्मात् पुण्यतरं पादकनाशनम् नाम्नामष्टोत्तरशदस्याहमेव ऋषिः प्रिये छन्दोऽनुष्ठुदेवतादो योगकृष्णप्रियावहः श्रीकृष्णकमलनाथो वासुदेवः सनातनः वसुदेवात्मजः पुण्यो लीलामानुषविग्रहः यशोदा चद श्रीवत्सकौस्तुभधरो यशोदावत्सलोहरिः चद्भुजात्तचक्रासि गदाशङ्खाद्युदायुधः देवकीनन्दनश्रीशो नन्दगोपप्रियात्मजः यमुनावेगसंहारी बलभद्रप्रियानुजः प्रजजनानंदी नवनीद पूदनाजीविदहरशडासुरभञ्चनः नन्दप्रजजनानन्दीसच्चिदानन्दविग्रहः नवनीतविलिप्ताङ्गो नवनीद लवाहारी नवनीतलवाहारी मुजुकुन्दप्रसादकृत षोडशस्त्रीसहस्रे शस्त्रिभङ्गी मधुराकृतिः शुकवागमृदाब्धिन्दुर्गोविन्दो गोविदाम्पतिः वत्सपालनसञ्चारी धेनुकासुरमर्दनः तृणीकृत तृणावर्तो यमलार्जुन भलतालत्ता चमलश्यामलाकृति गोपगोपीरोी सूर्योटिशम इलापदी पररंज्योयादवेन्द्रो यदूद वनमाली वनमालीपीदवासाः पारिजातापहारकः गोवर्धनाचलोद्धर्ता गोपालः सर्वपालकः अजो निरञ्जनकामजनखकञ्चलोचनः मधुहा मधुरानाथोद्वारकानाथको बली वनांत बृंद वनासारीम भूषण श्यम्तकमणेहर्ता नरतनायणात्मकुबाष्टाबरधरो मयी परमुष मुष्टिकालुद्ध विशारद संसारवैरी कंसारिर्मुरारिर्नरकान्तकः अनादिब्रह्मचारी च कृष्णा व्यसनकर्षकः शिशुपाल शिरश्चेता दुर्योधनकुलान्तकविदुराक्रूरवरदो विश्वरूपप्रदर्शकः सत्य सत्य संकल्प सत्यवाक्सत्यसक सत्यमो जयी सुभद्रपूर्वजों विषु जगन्नाधो प्रदायक जगद्गुर्जगन्नाथो विशारदः। वृषभुर विध्वंसी बकारिर्बाण बाहुकता युधिष्ठिरप्रतिष्ठाता बर्हि बर्हावतंसकः पार्थसारधिरव्यक्तो गीतामृदमहोदधिः कालीयफणिमाणिक्यरञ्जितश्रीपदाम्बुजः दामोदरो यज्ञभोक्ता दानवैद्रविनाशनः नारायणः परं ब्रह्म पन्नगाशनवाहनः गोपी वस्त्रापहारकः हा। पुण्यश्लोकस्तीर्थपादो वेदवेद्यो दयानिधिः सर्वतीर्थान्मकः सर्वग्रहरूपी परात्परः इत्येवं कृष्णदेवस्य नाम्नामष्टोत्तरं शतं कृष्णो न कृष्णभक्तेन श्रुत्वा गीतामृतं पुरा स्तोत्रं कृष्णप्रियकरं कृतं तस्मान्मया श्रुतं कृष्णप्रेमामृतं नाम परमानन्ददायकम् अत्युपद्रव दुःख्नं परमायुष्यवर्धनं दानं व्रदं तपस्तीर्थं यत्कृतं त्विह जन्मनि पठदां शृण्वदां चैव कोटिकोटिगुणं भवेद पुत्रप्रथमपुत्राणामगदीनां गदिप्रदं धनवाहं दरिद्राणाम् जयेच्छूनां जया वहं शिशूनां गोकुलानां च पुष्टिदं पुण्यवर्धनं बालरोग्रहादीनां शमनं शान्तिकारकम् अन्ते कृष्णस्मरणदं भवता पत्रयापहम् असिद्धसाधकं भद्रे जपादिक रमात्मनां कृष्णाय यादवेंद्राय ज्ञानमुद्राय योगिने नाथाय रुक्मिणीशाय नमो वेदान्तवेदिने इमं मन्त्रं महादेवी जपन्नेव दिवाह्निष्यम् सर्वग्रहानुग्रहभाक् सर्वप्रियतमो भवेद् पुत्र पौत्रैः परिवृद्ध सर्वसिद्धिसमृद्धिमान् निषेव्य भोगानन्देऽपि कृष्णा सायुज्यमाप्नुयात् अगस्त्य उवाच येदावदुक्तो भगवानन्दो मूर्तिस्तु सङ्कर्षणसं निधा विभो धराधरोलं जगदां धरायय निर्दिश्य भूयो विरराममानदः ततस्तु सर्वे सनकादयो ये समास्थितास्तत् परिधकथा दृताः आनन्दपूर्णम्बुनिधौ निमग्ना सभाजय मासुरहीश्वरं तम् ऋषय ऊचुः नमो नमस्ते नमस्तेऽखिलविश्वभावनप्रपन्नभक्तार्तिहराव्ययात्मन् धराधरायापि कृपार्णवाय शेषाय विश्वप्रभवे नमस्ते कृष्णामृतं नः परिपायितं विभो विधूतपापा भवदा कृता वयं दीन दयालवो विभो समुद्धरन्त्येव निजान् हि सन्नतान् एवं नमस्कृत्य भणिश्यपादयोर्मनो विधायाखिलकामपूरयोः प्रदक्षिणीकृत्य धराधराधरं सर्वे वयं स्वावसथानुपागताः इति तेभिहिदं रामस्तोत्रम् प्रेमा मृदाभिधं कृष्णस्य राधाकान्दस्य सिद्धितम् इदं राममहाभागस्तोत्रं परमदुर्लभं श्रुतं साक्षात् भगवदशेषात् कथयदकथाः या वन्दे मन्त्रजालानि स्तोत्राणि कवचानि च त्रैलोक्येतानि सर्वाणि सिद्ध्यन्ध्येवास्यशीलनात् वसिष्ठ उवाच एवमुक्त्वा महाराज कृष्णप्रेमामृतं स्तवं यावद्व्यरसीत्स मुनिस्तावत्स्वर्यानमागतम् चतुर्भिरद्भुतै अनुयाद कामरूपैर्मनोजवैः अनुयादमधोत्प्लुत्यस्त्रीपुंसौ हरिणौ तदा अगस्त्यचरणौ नत्वा समारुरुहदुर्मुदा दिव्यदेहधरौ भूत्वा सङ्घश्चक्रादिचिह्नितौ गतौ जैष्णवं लोकं सर्वदेव सर्वदेवनमस्कृतं पश्यतां सर्वभूतानां भार्गवागस्त्ययोस्तथा इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे भार्गवचरिते षट् त्रिंशत्तमोऽध्यायः ओम्